गरुडपुराणम् आचारकाण्डम् अध्यायम् तर्टि टु महेश्वर उवाच पञ्चतत्त्वार्चनम् ब्रूहि शङ्खचक्रगदाधर येन विज्ञानमात्रेण नरो यादिपरम् पदम् हरिरुवाच पञ्चतत्त्वार्चनम् वक्ष्ये तव शङ्करसुव्रद मङ्गल्यम् मङ्गलम् दिव्यं रहस्यम् कामदम् परम् तच्छृणुष्व महादेव पवित्रं कलिनाशनम् एक एवाव्ययः शान्तः परमात्मा सनातनः वासुदेवो ध्रुवशुद्धसर्वव्यापीनिरञ्जनः स एव माया देवपञ्चधा संस्थितो हरिः लोकानुग्रह कृद्विष्णुसर्वदुष्टविनाशनः वासुदेवस्वरूपेण तथा सङ्कर्षणेन च तथा प्रद्युम्नरूपेणानिरुद्धाघ्येन च स्थितः नारायणस्वरूपेण पञ्चधा ह्यद्वयस्थितः एतेषाम् वाचकान्मन्त्राशृणुवृषध्वज ॐ अम् वासुदेवाय नमः ॐ आं सङ्घर्षणाय नमः ॐ अम् प्रद्युम्नाय नमः ॐ अनिरुद्धाय नमः ॐ ओम नारायणाय नमः पञ्च मन्त्राः समाख्यादा देवानां वाचकास्तव सर्वपापहराः पुण्य सर्वरोगविनाशनाः अधुना सम्प्रवक्ष्यामि पञ्चतत्त्वार्चनम् शुभम् विधिना येन कर्तव्यम् यार्वा मन्त्रैश्च शङ्कर आदौ स्नानम् प्रकुर्वीत स्नात्वा सन्ध्याम् अर्चनागारमासाध्यप्रक्षाल्याम् क्रियादिकम् तथा आचम्योपविश्येत् प्राज्ञो बद्धासनमभीप्सितम् शोषणादितदकुर्यात् अं क्षौ सामान्यं मन्द्रकैः सामान्यम् कठिनीकृत्य चाण्डमुत्पादयेत्तदः विभेद्याण्डं ततो भावये परमेश्वरं। परमेश्वरम् वासुदेवं जगन्नाथं पीतकौशेयवाससं सहस्रादित्यसङ्काश्यं स्फुरन्मकरकुण्डलम् आत्मनो हृदि पद्मे दुध्यायेतु परमेश्वरं ततः सङ्कर्षणं देवमात्मानं प्रद्युम् न मनिरुद्धं च श्रीमन्नारायणं ततः इन्द्रादींश्च सुरांस्तस्माद्देवदेवात् समुद्धितान् चिन्तये च ततो न्यासं कुर्याद्वैकारयोर्द्वयोः व्यापकम् मूलमन्त्रेण चाङ्गन्यासं ततः परम् अङ्गमन्त्रायैर्महादेव तान्मन्त्राशृणुसुव्रद ॐ आं हृदयाय नमः ॐ ईं शिरसे नमः ॐ ऊिकायै नमः ॐ ऐं कवचाय नमः ॐ औं नेत्रत्रयाय नमः ॐ अहः अस्त्राय फट समस्तपरिवारायाच्युताय नमः ॐ धात्रे नमः ॐ विधात्रे नमः ॐ आधारशक्तयै नमः ॐ कूर्माय नमः ॐ अनन्दाय नमः ॐ पृथिव्यै नमः ॐ धर्माय नमः धर्माय नमः य नमः ॐ वैराग्याय नमः ॐ ऐश्वर्याय नमः ॐ अज्ञानाय नमः ॐ अनैर्याय नमः ॐ अं अर्कमण्डलाय नमः ॐ सों सोममण्डलाय नमः ॐ वं वह्निमण्डलाय नमः ॐ वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने देवाय नमः ॐ पाञ्चजन्याय नमः ॐ सुदर्शनाय नमः ॐ गदाय नमः पद्माय नमः ॐ श्रियै नमः ॐ पुष्ट्यै नमः ॐ गीत्यै नमः ॐ सक्रिय नमः ॐ प्रीत्यै नमः ॐ इन्द्राय नमः ॐ अग्नये नमः ॐ यमाय नमः ॐ निहृतये नमः ॐ वरुणाय नमः ॐ वायवे नमः ॐ सोमाय नमः ॐ ईशानाय नमः ॐ अनन्दाय नमः ॐ ब्रह्मणे नमः ॐ विश्वक्सेनाय नमः येदे मन्त्राः समाख्यातास्तव समासदः पूजा चैव प्रकर्तव्या मण्डले स्वस्तिकादिके ॐ पद्माय नमः अङ्गन्यासं च कृत्वा तु मुद्रा सर्वाः प्रदर्शयद आत्मानं वासुदेवं सुदेवं च ध्यात्वा चैव परेश्वरम् आसनम् पूजयत् पश्चा विधिवन्नरः द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वजा गरुडम् पूजयेदग्रे वासुदेवस्य शङ्कर शङ्खादिपद्मपर्यन्तम् मध्यदेशे प्रपूजयद धर्मम् ज्ञानम् च वैराग्यमैश्वर्यम् पूर्वदेशतः आग्नेयाद्येष्वर्चयेद्वै अधर्मादि चतुष्टयम् मण्डलत्रयमध्ये दुकीर्तिता ह्यसनस्थितिः पूर्वादिपद्मपत्रेषु पूज्या सङ्कर्षणाय च कर्णिकायाम् वासुदेवम् परमेश्वरम् पाञ्चजन्यादयपूज्याः ऐशान्यादिषु संस्थिताः शक्रयश्चैव पूर्वादौ देवदेवस्य शङ्कर इन्द्रादयो लोकपाला पूज्या पूर्वादिषु स्थिताः अधो नागतदुर्ध्वन्धुब्रह्मणं पूजयेत्सुधीः स्थानक्रमो ज्ञेये मण्डले शङ्करत्वया आवाह्यमण्डले देवं कृत्वा न्यासं तु तस्य च मुद्रां प्रदर्श्य पाद्यदीन् दद्यान्मूलेन शङ्कर स्नानं वस्त्रम् तथा चामम् गन्धम् पुष्पम् च धूपकम् दीपम् नैवेद्यमाचामम् नमस्कारम् प्रदक्षिणम् कुर्याच्छङ्करमूलेन जपम् चापि समर्पयेत् इदम् स्तोत्रम् जपेत् पश्चाद्वासुदेवमनुस्मरन् ॐ नमो वासुदेवाय नमः सङ्कर्षणाय च पद्युम्नायादिदेवाय अनिरुद्धाय नमो नमः नमो नारायणायैव नारायणाम् पदये नमः नरपूज्याय कीर्त्याय स्तुत्याय वरदाय अनादिनिधनायैव पुराणाय नमो नमः सृष्टि संहारकर्त्रे ज ब्रह्मणः पदये नमः मनो वै वेदवेद्याय शङ्खचक्रधराय च कलिकल्मषहर्त्रे ज सुरेशाय नमो नमः संसारवृक्षच्छेत्रे जया भेत्रे नमो नमः बहुरूपाय तीर्थाय त्रिगुणाय ब्रह्म वेष्णवीश्यरूपाय मोक्षदाय नमो नमः मोक्षद्वाराय धर्माय निर्माणाय नमो नमः सर्वकामप्रदायैव परब्रह्मस्वरूपिणे संसारसाकरे घोरे निमग्नं मां समुद्धर त्वदन्यो नास्ति देवेश नास्ति त्रादा त्वामेव सर्वगं विष्णुं तदोहं शरणं गदः ज्ञान ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय एवं स्तुविदेवेशं सर्वक्लेशविनाशनम् अन्यैश्च वैदिके स्तोत्रैस्तुत्वा वै नीलोकित पञ्चतत्त्वसमयुक्तं ध्यायोद्विष्णुं नरो हृदि विसर्जयत्तदा देवमिति पूजा प्रकीर्तिता सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर एतत्पूजनमन्त्रेण कृतकृत्यो भवेन्नरः इदं च यः पडेद्रुद्रपञ्चतत्त्वार्चनम् नरः शृणुया श्रवयेद्वाभि विष्णुलोकम् स गच्छति इति श्रीकारूडे महापुराणे आचारकाण्डे पञ्चतत्वार्चन विधिर्नामद्वातृं शोध्यायः ओम्